ब्रह्माण्डपुराणं मध्यभागम् अध्यायं सेवेन्टीन् श्राद्धकल्पे तिधिशाद्धवर्णनं बृहस्पतिरुवाच अध ऊर्ध्वं प्रवक्ष्यामि श्राद्धकर्मणि पूजितं काम्यं नैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः पुत्रधारनिमित्तास्युरष्टकास्तिष्ण एव च कृष्णपक्षे वरिष्ठा हि पूर्वा खण्डलदेवता प्राजापत्या द्वितीया स्या वैश्वदेविका आद्या पूपै सदाकार्या रन्या सदा कार्या मांसैरण्या सदा भवेद शाकैः का या तृतीया स्यादेवं द्रव्यगतो विधिः अत्रापीष्टं पितॄणां वै नित्यमेव विधीयते या चाप्यन्या च दुर्धि तां च कुर्याद् विशेषतः आशुश्राद्धं सर्वस्वेनापि नित्यशः क्षिप्रमाप्नो दिशिश्रेयः परत्रेह च मोदते पितरपर्वकालेषु तिथिकालेषु देवताः सर्वेषु पुरुषा यान्धि निपादमिपधे नवः मा सान्ते प्रति गच्छेयुरष्टकास्सुह्यपूजिताः मोखास्तस्य मोखास्तःपरत्रेख चर्वश पूजकाकर्षो नास्ति कामो गति देवास्तु दी ती ग्ययि पुष्टि प्रजा स्मृति पुत्र नैश्वर्य कुर्वाह्णपूजनं च सर्वं पूर्णं समश्नुते प्रतिपद्धनलाभाय लब्धं चास्य नश्यति द्वितीयायां तु ह्यः कुर्याद्विपदाद्धिं पतिर्भवेत् परार्थिनां तृतीयाद् शत्रुघ्नी पापनाशिनी चतुर्थ्यां तु प्रकुर्वाण शत्रुच्छिद्राणि पश्यति पञ्चम्यां चापि कुर्वाण प्राप्नोति महतीं श्रियम् षष्ठ्यां श्राद्धानि कुर्वाण सम्पूज्य स्यात् कुरु दे सप्तम्यां श्राद्धानि सततं नरः महिषत्वमवाप्नोति गणानां चाधिपो भवेद सम्पूर्णा वृद्धिमाप्नोति योष्ठम्यां कुरुदे नरः श्राद्धं नवम्यां कर्तव्यमैश्वर्यं स्त्रीश्च काङ्क्षता कुर्वन्दशम्यां तु नरोभ्राह्मीं श्रियमवाप्नुयात् वेदांश्चैवाप्नुयात् सर्वान्विप्राणां समदां व्रजेद एकादश्यां परं दानमैश्वर्यसतम् तथा द्वादश्यां जयलाभं च राज्यमायोर्वसूनि प्रजा वृद्धिं पशून्मेधां स्वातन्त्र्यं पुष्टिमुत्तमां दीर्घमायुरधैश्वर्यं कुर्वाणस्तुत्रयोदशीं युवानश्च गृहे यस्य मृतास्तेभ्यः प्रतापयेत् शस्त्रेण वाहदाये च तेषां दद्या अमावास्यां प्रयत्नेन श्राद्धं कुर्यात् सदा शुचिः सर्वकामानवाप्नो धिस्वर्गं चानन्दमश्नुते तथा विषमजातानां यमलानां च सर्वशः श्राद्धं दद्यादमावास्यां सर्वकामानवाप्नुयाद मखासु कुर्वन् श्राद्धानि सर्वकामानवाप्नुयाद प्रत्यक्षमर्चितास्तेन भवन्ति पितरस्तदा पितृतवामखा यस्मात्तस्मात्तास्वक्षयं ये श्री ब्रह्मांडे महापुराणे वायुप्रोक्त मध्यभागे तृतीय उपोद श्राद्धके तिथि श्राद्धवर्णन नाम सप्तशोध्याय ओम।